नारायणीयं दशकं 61 मीटर मीटर् वंशस्थम् ततश्च वृन्दा वनतोऽधिदूरतो वनं गतस्त्वं कलु गोपगोकुलैः हृदन्तरे भक्ततरद्विजाङ्गना कदम्बकानुग्रहणाग्रहं वहन् तदो निरीक्ष्या शरणे वनान्तरे किशोरलोकं क्षुधितं तृषाकुलम् अदूरदो यज्ञपरान् द्विजान् प्रदिव्यसर्जयो दीदिवि या जनायतान् गदेष्वधो तेष्वभिधाय तेऽभिधाङ्कुमारकेष्वोदन याचिषुप्रभो श्रुतिस्थिरा अप्यभिनिन्युरश्रुतिं न किञ्चिदूचुश्च महीसुरोत्तमाः अनादरा तिन्न धियो हि बालकास्समाययोर्युक्तमिदं हि यज्वसु चिरादभक्ता खलु कथं हि भक्तम् समर्प्यते, जनायमां, दिशेयु तवितई सप्यवेदयध्व गृहिणीजनाय दिशेुर कुणकुलास्मताद्रवते गे दयाचि गृहीतनां नित्वयि सम्भ्रमाकुलाश्च दुर्विधं भोज्यरसं प्रगृह्यताः चिरं धृतत्वत्प्रविलोकनाग्रहास्वकैर्निरुद्धा अपि तूर्णमाययुः विलोलपिञ्छं चिकुरे कपोलयो समुल्लसत्कुण्डलमार्द्रमीक्षिते निधाय बाहुं सुहृदंसीमनिस्थितं भवन्तं समलोकयन्तताः तदा च काचित्त्वदुपागमोद्यथा गृहीदहस्ता दा दयिते न तदैव सञ्चिन्त्य भवन्तमञ्जसा विवेशकैवल्यमहोकृतिन्यसौ आदाय भोज्यान्यनुगृह्य ताः पुनस्त्वदङ्गसङ्गस्पृहयोच्छतिर्गृहं विलोक्ययज्ञाय विसर्जयन्नि माश्चकर्ध भर्तृन गर्हणान् निरूप्य दोषं निजमङ्गनाजने विलोक्यभक्तिं च पुनर्विचारिभिः प्रबुद्धतत्त्वैस्त्वमभिष्टुतो द्विजैर्मरुत्पुराधीश निरुन्धिमे गदान् सर्वत्र गोविन्दनामसङ्कीर्तनं गोविंद गोविन्द